ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 24 फोर् अर्जुनोपाख्यानं वसिष्ठ उवाच इत्युक्त्युक्तस्तेन भूपाल रामो मतिमदाम्बरः निरूप्य मनसा भूयस्तमुवाचाभिविस्मितं राम उवाच कस्व ब्रूहिमहा नई प्राकृतपूरुष वपुरा सेवा तव विचिपदौदार्य गुण गांीजा सर्वज दवाणी श्रूय देति मनोहरा इन्द्रो वाग्निर्यमो धादा वरुणो वा धनाधिपः ईशानस्तपनो ब्रह्मा वायुःसोमो गुरुर्गुहः येषामन्यतमःप्रायो भवान् भवितुमर्हति अनुभावेन जादिस्ते हृदि शङ्कां तनोदिमे माया भगवान् विष्णुश्रूयते पुरुषोत्तमः को वा वपुषानेन ब्रूहि मां समुपागतः अथवा जगदन्नाथ सर्वज्ञः परमेश्वरः परमात्मात्मसम्भूधिरात्मा रामः सनातनः स्वच्छन्ताचारी भगवाज्जिवः सर्वजगन्मयः वपुषा संयुक्त भवान्वर्सती न्यस्ेदेलोके साउष्टवो वबु जावोपेदवाणी चौदार्यशानी मेकवात्सल्या वपुषा प्रत्यक्षता मुपगो सदेहोऽस्मत्परीक्षया न केवलं भवान् व्याधस्तेषां नेदृग्विधाकृतिः तस्मातुभ्यं नमस्तस्मै सुरूपं सम्प्रदर्शय आविष्कुर्वन् प्रसीदात्ममहिमानुगुणं वपुः ममानेकविधाशङ्कामुच्येद येन मानसी प्रसीदसर्वभावेन बुद्धिमोहौ ममाधुना प्रणाशयस्वरूपस्य ग्रहणादेव केवलं प्रार्थये त्वमहाभागप्रणम्य शिरस्सा सकृत् कस्त्वं मे दर्शयात्मानं बद्धोऽयं ते मयाञ्जलिः इत्युक्त्वा तं भृगुद्वह उपविश्य ततो भूमौ ध्यानमास्ते समाहितः बद्धपद्मासनो मौनी यदवाकायमानसः निरुद्धप्राणसञ्चारो दध्यौ चिरमुदारधीः सन्नियम्येन्द्रियग्रामं मनो हृदि निरुध्य च चिन्तयामास देवेशं ध्यानदृष्ट्या जगद्गुरुम् अपश्यच्च जगन्नाथमात्मसंधानचक्षुषा स्वभक्तानुग्रहकरं मृगव्याधस्वरूपिणं तद उन्मील्यनयने शीघ्रमुद्धाय भार्गवः ददर्श देवं तेनैव वपुषा पुरत आत्मनोनुग्रहार्थाय शरण्यं भक्तवत्सलम् आविर्भूदं महाराज दृष्ट्वा रामससम्भ्रमम् रोमाञ्चोद्भिन्नसर्वाङ्गो हर्षाश्रुप्लुतलोचनः पपादपादयोर्भूमौ भक्त्या तस्य महामतिः सगद्गदमुवाचैनं सम्भ्रमाकुलया गिरा शरणं भव सर्वेऽपि शङ्करेत्यश कृन्नृप ततः स्वरूपधृक् शम्भुस्तद्भक्ति परितोषितः राममुदापयामास प्रणामावनदम्भुवि उत्थापितो जगद्धात्रा भृगुद्वह तुष्टावदेवदेवेशं पुरस्थित्वा कृताञ्जलिः राम उवाच नमस्ते देवदेवाय शङ्कराय आदिमूर्तये नमः शर्वाय शान्ताय शाश्वताय नमो नमः नमस्ते नीलकण्ठाय नीललोहितमूर्तये नमस्ते भूतनाथाय भूतवासाय ते नमः व्यक्ताव्यक्तस्वरूपाय महादेवाय मेढुषे शिवाय बहुरूपाय त्रिनेत्राय नमो नमः शरणं भवमे सर्व त्वद्भक्तस्य जगत्पदे भूयोन्याश्रयाणान्तु त्वमेव हि परायणम् यन्मयापकृतं देव दुरुक्तं वापि शङ्कर अजानद त्वां भगवन् मम तत्क्षन्तुमर्हसि अनन्यवेद्यरूपस्य सद्भावमिह कः पुमान् त्वामृदे तव सर्वेश तस्मात् त्वं सर्वभावेन प्रसीद मम शङ्कर नान्यास्ति मे नमो भूयो नमो नमः वसिष्ठ उवाच इति संस्तूयमानस्तु कृताञ्जलिपुटं पुरः तिष्ठन्दमाह भगवान प्रसन्नात्मा जगन्मयः भगवानुवाच प्रीतोऽस्मि भवदेताद तपसानेन साम्प्रतं भक्र्या चैवा न पायिन्या ह्यपि सवे भवदेहं त्वया वृतं भक्तो हि मे त्वमत्यर्थं नात्र कार्या विचारणा मयैवावगतं सर्वं धृदिवत्तेवर्तते तस्माद्ब्रवीमि यत्त्वाकं तत्कुरुष्वा विशङ्कितम् नास्त्राणां धारणे वत्स विद्यते शक्तिरद्यते रौद्राणां तेन भूयोऽपि तपोघोरं समाचर परीत्य पृथिवीं सर्वां सर्वतीर्थेषु चक्रमाद् स्रात्वा पवित्रदेहस्त्वं सर्वाण्यस्त्राण्यवाप्स्यसि इत्युक्तान्तर्दधे दे देवस्तेनैव वपुषा विभुः रामस्य पश्यतो राजन्क्षणेन भवभागकृत अन्तर्हिते जगन्नाधे रामो नत्वा तु शङ्करं परीत्यवसुधां सर्वां तीर्थस्नाने करोन्मनः तदस पृथिवीं सर्वं परिक्रम्य यथाक्रमं चकार सर्वतीर्थेषु स्नानं विधिवदात्मवान् तीर्थेषु क्षेत्रमुखेषु तथा देवालयेषु च पितृन् देवांश्च विधिवदर्पय दतन्त्रितः उपवासतपोहोमजपस्नानादिसुप्रियाः तीर्थेषु विधिवत् परिचक्राम मेदिनीम् एवं क्रमेण तीर्थेषु स्नात्वा चैव वसुन्धरां प्रदक्षिणीकृत्य शनैः देहो भवन् नृप परीत्यैवं वसुमतीं भार्गवशम्भुशासनाद् जगाम्भूयस्तं देशं यत्र पूर्वमुवाससः गत्वा राजन्सत्रैव स्थित्वा देवमुमापतिं भक्र्या सम्पूजयामास तपोभिर्नियमैरवियेदस्मिन्नेव काले तु देवानामसुरैः सह बभूव सुचिरं राजन् सङ्ग्रामो रोमहर्षणः सदो देवान्पराजित्य युद्धे बलिनोसुरा अपुरमरैश्वर्यमशेषमकु भया पराजिदा देवासकसवादय शरण चक्मोतरियाराषयि जगन्नाधं प्रणामजय संस्थ प्रार्थया मासुरसुरान् हन्तुं देवाः पिनाकिनम् ततस्तेषां प्रतिश्रुत्य दानवानां वधं नृप देवानां वरदशम्भुर्महोदरमुवाचः हिमद्रेर्दक्षिणे भागे रामो नाम महातपः मुनिपुत्रोदितेजस्वी मामुद्दिश्य तपस्यति तत्र गत्वा त्वमद्यैव निवेद्य मम शासनं महोदर तपस्यन्तं तमिहानय माचिरम् इत्याज्ञप्रस्थेत्युक्त्वा प्रणभ्येषं महोदरः जगाम वायुवेगेन यत्र रामोऽव्यवस्थितः समासाद्य सदं देशं दृष्ट्वा रामं महामुनिं तपस्यन्तमिदं वाक्यमुवाच विनयान्वितः द्रष्टुमिच्छति शम्भुस्त्वां भृगुवर्यं तदाज्ञया आकतोऽहं तदागच्छ तत्पादाम्बुजसन्निधिं तृत्वा वचनं तस्य शीघ्रमुद्धय भार्गवः तदाज्ञां शिरः सानन्द्य तथेधि प्रत्यभाषद रामं त्वरूपे द शम्भुपार्श्वं महोदरः प्रपयामास सहसा कैलासे नागसत्तमे सहिदं सकलैर्भोदैरिन्द्राद्यैश्च सहामरैः ददर्शभार्गवश्रेष्ठशङ्करं भक्तवत्सलं संस्तूयमानं मुनिभिर्नारदाद्यैस्तपोधनैः गन्धर्वैरुपगायद्भिर्नृत्यद्भिश्चाप्सरोगणैः उपास्यमानं देवेशं गज चर्म धृताम्बरं भस्मोद्धूलितसर्वाङ्गं त्रिनेत्रं चन्द्रशेखरं धृत पिङ्गजडाभारं नागाभरमभूषितं प्रलम्बोष्ठभुजं सौम्यं प्रसन्नमुखपङ्कजम् आस्थितं आस्ति काञ्चने पट्टे गीर्वाणसमितौ नृप उपा उपासर्पतु देवेशं भृगुवर्यकृताञ्जलिः श्रीकण्ठदर्शनोद्वत्तरोमाञ्चाञ्चिदविग्रहः बाष्पत्तुसिकृतकायेन स तु गत्वा हरान्तिकं भक्र्या सम्भ्रमं वाचा हर्षगद्गदया सकृत नमस्ते देवदेवे दिव्यालपन्ना कुलाक्षरं पपादसंस्पृशन्मूर्ध्ना चरणौ पुरविद्विषः पश्यतां देववृन्दानां मध्ये भृगुकुलोद्वहं तमुद्दाप्य शिवः रामं मधुरया वाचा प्रहसन्नाः सादरम् इमे दैत्यगणैः क्रान्ता स्वाधिष्ठानात् परिच्युताः अशक्रुवन्तस्तान् हन्तुं गीर्वाणा मामुपागताः तस्मान्ममा ज्ञया रामदेवानां च प्रियेऽप्सया जहि दैत्यगणान् सर्वान् समर्धस्त्वं हिमे मदः तदो रामो ब्रवीत् सर्वं प्रणिपत्य कृताञ्जलिः शृण्वतां सर्वदेवानां सम्प्रश्रयमिदं वचः स्वामिन्नविदिदं किन्दे सर्वज्ञस्य अखिलात्मनः तथापि विज्ञापयदो वचनं एव धारय यदि शक्रादिभिर्देवैरखिलैरमरारयः न शक्य कन्तुमेकस्य शक्यास्यस्ते शक्या कथं मम अनस्रज्ञोऽस्मि देवे स युद्धानामप्यकोविदः कथं हनिष्ये सकलान् सुरशत्रूननायुधः युत्युक्तस्तेन देवे शसिदं कालाग्निसप्रभं शैवमस्त्रमयं तेजो तस्मै महात्मने आत्मीयं परशुं दत्त्वा सर्वशस्त्राभिभावकं रामपाकप्रसन्नात्मा गीर्वाणानान्तुशृण्वतम् मत्प्रसादेन सकलांसुरशत्रुन्घ्न शकर्भवधे सौम्य दुरा सदा अनवायुन झुध्य स्वत्रु स्वये च वेत्सिव यद्युकौशल वसिष्ठ उवाच एवमुक्तस्ततो रामः शम्भुनाथं प्रणम्य च जग्राहपरशुंशैव विभूधारी ततः स शुशुभे रामो विष्णुते ज्ञोशसम्भवः रुद्रभग्र्या समायुक्तोद्युक्त्येव सवितुर्महः सोऽनुज्ञातस्त्रिनेत्रेण देवैः सर्वैः समन्वितः जगाम जगामहन्तुमसुरान्युद्धाय कृतनिश्चयः ततो भवत्पुनर्युद्धं देवानामसुरैः सह त्रैलोक्य विजयोद्युक्तैराजन्नति भयङ्करम् अधरामो महाबाहुस्तस्मिन् युद्धे सुदारुणे क्रुद्धः परशुनादेन निजखानमहासुरान् प्रहारैरशनिप्रख्यैर्निघ्नन् दैत्यान् सहस्रशः चचार चचारसमरे रामक्रुद्धकाल इवापरह अत्वादु सकलान् दैत्यान् देवान् सर्वानहर्षयद क्षणेन नाशयामास रामः प्रहरताम्बरः रामेण हन्यमानास्तु समस्ता दैत्यदानवाः ददृशु सर्वतो रामं हतशेषा भयान्विताः हदेष्वसुरसङ्घेषु विद्रुतेषु च कृष्णशः राममामन्त्र्यविबुधा प्रययुस्त्रिदिवं पुनः रामोऽपि हत्वा दिदिजानभ्यनुज्ञाप्य चामरान् स्वामाश्रमं समापेदे तपस्याशक्रमानसः मृगव्याधप्रतिकृतिं कृत्वा शम्भोर्महामतिः भक्त्या सम्पूजयामास स तस्मिन्नाश्रमे वशी गन्धैः पुष्पैस्तदा हृद्यैर्नैवेद्यैरभिवन्दनैः स्तोत्रैश्च विधिवद्भक्रिया परां प्रीतिमुपानयद् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धतपादेऽर्जुनोपाख्याने चतुर्विंशतितमोऽध्यायः <Sedurvimshadita> ओम्